अथाष्टाविंशः सर्गः सारणस्य वचः श्रुत्वा रावणम् राक्षसाधिपम् बलमादिश्य तत्सर्वम् शुको वाक्यमथा ब्रवीत् स्थितान् पश्यसि याने तान् मत्तानिव महाद्विपान् न्यग्रोधानिव सालान सालान् हैमवतानिव येते दुष्प्रसहाराजन् बलिनः कामरूपिणः दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः येषाम् कोटिसहस्राणि नव पञ्च च सप्त च तथा शङ्कुसहस्राणि तथा वृन्दशतानि येते एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा हरयो कामरूपिणः यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ मयीन्दश्च द्विविदश्चैव नास्ति समो युधि ब्रह्मणा समनुज्ञातावमृतः प्राशिना बुभौ आशंसेते यथालङ्कामेतौ मर्दितुमोजसा यम् तु पश्यसि तिष्ठन्तम् एषोऽभिगन्तालङ्कायाम् वैदेह्यास्तव च प्रभो एनम् पश्य पुरा दृष्टम् वानरम् पुनरागतम् पुत्रो वातात्मद इति श्रुतः विख्यातो लङ्घितो येन सागरः कामरूपो हरिश्रेष्ठो बलरूपसमन्वितः अनिवार्यगतिश्चैव यथा सततगः उद्यम भास्करं दृष्ट्वाल बुभुक्षिजन सहस्रं तो अध्वा नम वतीयी आदिष्या न मे क्षुत्ति इति निश्चिम मनसा पुक्लुबे बल दर्ता अनाधृष्य तम देवशिराक्षसै अना अतितस्य कपेरस्य हनुरेका शिलातले किञ्चिद्भिन्ना दृढहनुर्हनुमानेश तेन वै सत्यमागमयोगेन ममैष विदितो हरिः नास्य मथितुमोजसा येन जाज्वल्यते लङ्कायाम् निहितश्चापि कथम् विस्मरसे कपिम् यश्चैषोऽनन्तरशूरश्यामः पद्मनिभेक्षणः इक्ष्वाको लोके विश्रुतपौरुषः यस्मिन्न चलते धर्मो यो धर्मम् नातिवर्तते योऽ ब्राह्मस्त्रम् वेदांश्च वेद वेदविदाम्बरः यो भिन्द्याद्गनम् बाणैर्मेदिनीम् वापि यस्य मृत्योरिवक्रोधः शक्रस्येव पराक्रमः यस्य भार्या जनस्थानात् सीता चापि हृता त्वया स एष रामस्त्वाम् राजम् योद्धुम् समभिवर्तते यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बोनदप्रभः विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः एषो हि लक्ष्मणो नाम प्रियहिते रतः नये ये युद्धे च कुशलः वरहा अमर्षि दुर्जयो जेता विक्रान्तश्च जयीबली रामस्य दक्षिणो बाहुर्नित्यम् प्राणो बहिश्चरः न ह्येष राघवस्यार्थे जीवितम् परिरक्षति एषैवाशंसते युद्धे निहन्तुम् सर्वराक्षसान् यस्तु सव्यमसौ पक्षम् रामस्याश्रित्य तिष्ठति रक्षो गणपरिक्षिप्तो राजा हेष विभीषणः श्रीमता राजराजेन लङ्कायामभिषेचितः त्वामसौ प्रति संरब्धो युद्धायैषोऽभिवर्तते यन्तु पश्यसि तिष्ठन्तम् मध्ये गिरिमिवाचलम् सर्वशाखा मृगेन्द्राणाम् भर्तारममितौ ते जसम् तेजसा च यः कपीनति बभ्राजहिमवानिव पर्वतः किष्किन्धाम् यः स मध्यास्ते गुहाम् सगहनद्रुमा दुर्गाम् पर्वतदुर्गम्याम् प्रधानैः सह यूथपैः यस्यैषाकाम् च नीमाला शोभते शतपुष्करा कान्ता देवमनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता एताम् मालाञ्च ताराम् च कपि च शाश्वतम् सुग्रीवो बालिनम् हत्वा रामेण प्रतिपादितः शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः महाशङ्कुसहस्राणाम् शतम् वृन्दमिहोच्यते शतम् वृन्दसहस्राणाम् महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् महाखर्वसहस्राणाम् समुद्रमभिधीयते शतम् समुद्रसाहस्रमोघ इत्यभिधीयते शतमोघसहस्राणाम् महौघ इति विश्रुतः एवम् कोटिसहस्रेण शङ्कूनाम् च शतेन च महाशङ्कुसहस्रेण तथा वृन्दशतेन च महावृन्दसहस्रेण तथा पद्मशतेन च महापद्मसहस्रेण तथा खर्वशतेन च समुद्रेण च तेनैव महौघेन तथैव च एष कोटिमहौघेन समुद्रसदृशेन च विभीषणेन वीरेण सचिवैः परिवारितः सुग्रीवो वानरेन्द्रस्त्वाम् युद्धार्थमनुवर्तते महाबलवृतो नित्यम् महाबलपराक्रमः इमाम् महाराजसमीक्ष्य वाहिनीमुपस्थिताम् प्रज्वलितग्रहोपमाम् ततः प्रयत्नः परमो विधीयताम् यथाजयस्यान्न परैः पराभवः शे श्रीमद्राणे वाल्मीक आदि का्युद्धकांडे अष्ट सर्ग